एकनवति तमोऽध्यायः अष्टकौ वाच चरन् गृहस्थः कथमेति धर्मान् कथम् भिक्षुः कथमाचार्य कर्मा वानप्रस्थः सत्पथे सन्निविष्टो ययातिरुवाच आहूताध्यायी गुरुकर्म स्वचोद्यः पूर्वोत्थायी चरमञ्चोपशायी मृदुर्दान्तोद्धृतिमान प्रमत्तः स्वाध्यायशीलः ब्रह्मचारी धर्मागतम् प्राप्य धनम् यजेत दद्याद्वातिथन भोजयच अनाद दान्च परैरदत्तं, सैषा गृहस्थोपनषत्राणी सवीजीवी वृजिनावृत् दाता परेभ्यो न परोपतापी तादृ मु मुन सिद्धि मुपै मुख्या वसन्न्ये नियता हेष्ट अशिल्प जीवी गुणवां निर्म जिते रात्र्याययावाभिजिताश्च लोका भवन्ति कामाभिजिताः सुखाश्च तामेव रात्रिम् प्रयते त विद्वानरण्यसंस्थो भवितुम् यतात्मा दशैव पूर्वान् दश चापरांश्च ज्ञाती नथात्मानमथैकविंशम् अरण्यवासी सुकृते दधाति विमुच्यारण्ये स्वशरीरधातून् अष्टक उवाच कति स्विदेव मुनयः तदा चक्ष्व ययातिरुवाच अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः ग्रामे वा वसतोऽरण्यम् समुनिः स्यात् जनाधिप अष्टक उवाच कथम् स्वित् वसतोऽरण्ये ग्रामो भवति पृष्ठतः ग्रामे वा वसतोऽरण्यम् कथम् भवति पृष्ठतः ययातिर्वाच न ग्राम्यमुपयुञ्जीत न आरण्यो मुनिर्भवेत् तथास्य वसतोऽरण्ये ग्रामो भवति पृष्ठतः अनग्निरनिकेतश्चाप्यगोत्र चरणो मुनिः कौपीनाच्छादनम् यावत् तावदिच्छेच्च चीवनम् यावत्प्राणाभिसन्धानम् तावदिच्छेच्च भोजनम् तथास्यवसतो ग्रामेरण्यम् भवति पृष्ठतः यस्तु कामान् परित्यज्य त्यक्तकर्मादितेन्द्रियः आतिष्ठेच्छमुनिर्मौनम् स लोके सिद्धिमाप्नुयात् धौतदन्तम् कृत्तनखम् सदा स्नातमलङ्कृतम् असितम्सित कर्माणम् तपसाकर्षितः क्षामः क्षीणमांसास्थिशोणितः स च लोकमिमम् जित्वा लोकम् विजयते परम् यदा भवति निर्द्वन्द्वो मुनिर्मौनम् समास्थितः अथ लोकमिमम् जित्वा लोकम् विजयते परम् आस्येन तु यदाहारम् गोवन् मुनिः अथास्य लोकः सर्वोऽयम् इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि उत्तरयायाते एकनवतितमोऽध्यायः